श्रीमद्भागवत् महापुराणं द्वादशी स्कन्धषष्ठोऽध्यायः सुवाच इत्युक्त स तथित्याह महर्षिर्मानियन्वचः सर्पसत्रादुपरत पूजयामास वाक्पतिम् सैषा विष्णुर्महामायां मुह्यन्त्यस्यैवात्मभूता भूतेषो गुणवृद्धिभिः न यत्र तं हिद्यभवं भया विराजिता मायात्मवादे सकृदात्मवादिभिः न यद्विवादों द्विविधस्तदाश्रयो मनस्य सङ्कल्पविकल्पवृद्धि यत् न यत्र सृजं सृजतो भयोपरं श्रेयस्थतीव त्रिभिरन्वितस्त्वहम् तदेतदुस्सान्दितबाध्यबाधकं निषेद्मजो चोर्मिन् विरमे स्वयं मुनिः परं पदं वैष्णो मामनन्ति तन् यन्नेति नेति तदुदुं तदुषितिक्षवः निसेज्यदौरात्म्यमनन्यसौ त एतदि गच्छन्ते विष्णोर्यत परमं पदम् अहम् अपेति दौर्जन्यं न येषां देहगेहजम् अतिवादांसिक्षेत नावमन्येत कञ्चन न चैवं देहमाश्रित्य वैरं कुर्वीत केनचिन् नमो भगवते तस्मै कृष्णाया कुण्ठमेधसे यद्वादां बृहद् संहिता मध्यगामि मां शौनकुवाच प्रैरादिभिर्ब्यासशिष्यर्वेदाचार्यै महात्मभि वेदाश्च कथिता व्यस्ता एतस्सौम्याभिधेहिनः सूतुवाच समाहितात्मनो ब्रह्मन् ब्रह्मण परमेशिनः श्रद्ध्याकाशादभुन्नादो वृत्तिरोधाद्विभाव्यते यदुपासनया ब्रह्मण् योगिनो मलमात्मनः द्रव्यक्रियाकारकाख्यं धुत्वा ध्यान्त्य पुनर्भवम् ततो भुद्रीविदोङ्कारो यो व्यक्त प्रभुवशराट् यत्तल्लिङ्ग भगवतो ब्रह्मण परमात्मनः शृणोति इमं सोटं सप्त श्रोत्रे च शून्यते दे येन वा व्यते यस्य व्यक्तिराकाश आत्मनः स्वधाम्नो ब्रह्मण साक्षाद्वाचकपरमात्मनः स सर्वमन्त्रोपनिषद्वेदबीजं सन्तुं सनातनम् तस्य या सन्त्रयो वर्णा अकाराद्या भृगुद्वः धार्यन्ते भावा यः श्रेयो भावा गुणनामासवृत्तयः ततोऽक्षरसमाम्नायम् असि यद्भगवानजः अन्तस्थो स्म स्वस्पर्शस्वदीर्घादिलक्षणं तेनाशौ चतुरो वेदान्ततुर्भिर्वजनैर्विभो शव्याशितिकां शोकाश्चातुर्होत्र विवक्षया पुत्रान् अध्यापयस्तास्तु ब्रह्मर्षिन् ब्रह्म कोविदान् ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ते परम्परया प्राप्ता तद्दशिष्यैर्षिवृतैः चतुर्युगेश्वथ व्यस्ताद्वापरादौ महर्षिभिः चीणायुष चीणसत्त्वां दुर्मेधान् वीक्ष्यकालतः वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्था चुतचोदिताः अस्मिन्नप्यन्तरे ब्रह्मण् भगवान् लोकभावनः ब्रह्मे साध्यै लोकपाले याचितो धर्मगुप्तये परासरा सत्यवत्या मंसांसकलया अवतेनो महाभाग वेदं चक्रे चतुर्विधम् ऋगथर्वयजोषाम्नां राशिनुद्धृत्य वर्गशः चतस्रसंहिताश्चक्रे मन्त्रैर्मणिगणा इव तासां सं चतुरशिष्यान् उपाहूय महामतिः एकैकां संहितां ब्रह्मण्डेकैकस्मै ददो विभो दैलाय संहितामाद्यां ब्रह्मविचाध्यामुवाच देशां वयसम्पायनसंज्ञाय निगदाख्यं यजुर्गणं साम्नां जयमिनये प्राह तथा छन्दोकसंहिताम् अथर्वाङ्गीरसिं नाम स्वशिष्याय सुमन्तवे पैरस्वसंहितामूचये इन्द्रप्रमितये मुनिहे बास्कलाय चसोप्याह सोप्याः से से से सेव्येभ्य सहितां सुखम् चतुर्धाव्यस्य बोध्याय याज्ञवल्क्याय भार्गव पराशरायाग्निमित्रे इन्द्रप्रमितिरात्मवान् अध्यापयत्संहितां श्वां माण्डुकेयमृशिं कविं तस्य शिष्यो देवमित्र सौभर्यादिभ्य ऊचिवान्